श्रीहरये नमः अथ द्वाविंशोऽध्यायः मैत्रेयमुवाच जनेषु प्रगृणस्त्ववेवं पृथुं पृथुलविक्रमं तत्रो भजग्मुर्मुनयश्चत्वार सूर्यवर्चसः तांस्तु सिद्धेश्वरान् राजा व्योम् नोऽवतरोतोर्चिषा पापान् कुर्वत्या सानुगोचष्टलक्षितान् तदर्शनो गतान् प्राणान् प्रत्यादित्सुरीवोत्तितः स सदस्यानुको गौरवाद्यन्त्रतः सप्य प्रस्रयानतकन्धरः विधिवत् पूजयान् चक्रे गृहीधात्यर्हणासनान् तत्पादशौच सलिलये हठाकासन आसीनान् स्वदिशिङ्गेष्विव पावकान् श्रद्धा अखो प्रीतप्रागभवाग्रजान् मङ्गलं मङ्गलायनाः यस्य यो दर्शनं ह्यासीद् दुर्दर्शानां च योगिभिर् किं तस्य दुर्लभतरम् इह लोके परत्र च यस्य विप्रा प्रसीदन्ते शिवो विष्णुश्च सानुगः नैव लक्षते लोको लोकान् पर्यटतोऽपि यथा सर्वदृशं सर्वम् आत्मानं येष्य हेतवः अधा अभिदेधन्या साधवो गृहमेदिनः यद्गृहाह्यवर्याम्भो तृणभूमीश्वरावराः व्यालालयद्रुमा यद वै हेऽप्य रिक्ता किल यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः स्वागतं वो द्विजश्रेष्ठां यद्व्रतानि मुमुक्षवः चरन्ति श्रद्धयादीरा बाला एव बृहन्ति च व्यसनावापये तस्मिन् पतितानां स्वर्गमभिर्भवत्सु कुशलप्रसन्न आत्मा रामेषु नेष्यते कुशला कुशला यत्र न सन्ति मतिवृत्तयः तदहं कृतविश्रम्भ वस्तपस्विनां सम्पृच्छे भवये तस्मिन् क्षेमकेनाञ्जसा भवे, तस्मिन भवे। व्यक्तम् आत्मवतामात्मा भगवानात्मभावनः स्वानामनुग्रहाये मां सिद्धरूपी शरत्यजः मैत्रेय उवाच आकर्ण्यसारं सुष्ठुमितं मधू स्मयमानयिव प्रीत्या कुमारः प्रत्युवाचः सनत्कुमार उवाच साधुभ्रष्टं महाराज सर्वभूतहितात्मना भवता विदुषा चापि साधूनां मतिरीदृशी सगम खलु साधूनाम् उभयेक्षांश्च सम्मतः यत्सम्भाषणसम्प्रश्न सर्वेषां वितनोति सम् अस्त्येव राजन्भवतो मधुद्विष पाधराविन्धस्य गुणानुवाधने रथिर्धुरा भविदुनोति नैष्टिकामं कषायं मलमन्तरात्मनः शास्त्रे स्वीयानेव सुनिश्चितो क्षेमस्य सर्यग्सृषेषु हेतुः असङ्ग आत्मव्यतिरिक्त आत्मनि दृढारतिर्ब्रह्मणि निर्गुणेच्छया सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासया आत्यात्मिकयोगनिष्ठया योगेश्वर च नित्यं पुण्यश्रवकथया पुण्यया च अर्थदेन्द्रिया रामसकोष्ठ्यतृष्णया तत्सम्मतन अपरिग्रहेण च विविक्त अहिंसया पारमहंसचर्यया स्मृत्यामुगुधा चरिधार्घ्यसीधुना यमैरकामेर्नियमैश्चाप्यनिन्दया इरीहया द्वन्द्वतिक्षया च हरे गुणाभिधानेन विजृम्भमाणया भक्त्या ह्यसङ्कसतस्यनात्मनि स्यानिर्गुणे ब्रह्मणि साञ्जसारथिः यथा रथिब्रह्मणि नैष्टिकी आचर्यवान् ज्ञानविराघरं दहत्य वीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्ने दक्तासयो स योमुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्णे परात्मनोर्यद्व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस्तद्विनाशे आत्मानमिन्द्रियार्थं च परं यदुपयोरपि सत्याशयबुबाधौ वै पुमान् पश्यति नान्यधा निमित्ते सति सर्वत्र झलाधावपि पौरुषः आत्मनस्य परस्या पश्यति नान्यधा इन्द्रियैर्विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः चेतनां हरते बुद्धे स्तेम्भस्तोऽयमिवह्रदान् प्रयस्तनुस्मृतिश्चित्तं ज्ञानभ्रंसस्मृतिक्षये तद्रोतं कवयप्राहु आत्मा पक्नभम् आत्मनः नातपथरो लोके पुंस स्वार्थव्यतितिक्रमः यदत्यन्यस्य प्रेयस्त्वम् आस्मनस्व्यतिक्रमात् अर्थेन्द्रियार्ताभिज्ञानं सर्वार्ता भक्नवोनृणा भ्रंसितो ज्ञानविज्ञानात् येन आवि न कुर्यात् कर्हि चित्सङ्गं तमस्तीव्रन्तिरिषोः धर्मार्थकाममोक्षाणां यदत्यन्तविघातकं तत्रापि मोक्षये वार्त आद्यन्तिकतयेष्यते त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः परे वरे च ये भाभा गुणव्यतिकरा धनु न तेषां विद्यते क्षेमम् ईश विद्वंसिदासीशां तत्त्वं नरेन्द्रजगतामतस्तु शां च देहेन्द्रियासुदीक्षणात्मभि आवृतानां यक्षेत्रवित्तपतया हृदि विश्वगाभि प्रत्यक्षकास्ति भगवान्स्तमवेहि सोऽस्मि यस्मिन् गिदं सदशात्मतया विभाति मायाविवेकविदुतिश्रजिवाहि बुद्धे तं नित्यमुक्तपरिशुद्धविभुक्ततत्त्वं प्रीत्योढकर्म किल प्रकृतिं प्रबध्ये यत्पादपङ्गजपलास विलासभक्त्या कर्माशयं ग्रतितं उद्ग्रथयन्ति सन्तः तद्वन्नरिक्तमतयो यतोऽपि रुद्ध श्रोदगणास्तमरणं भजवासुदेवं कृश्चरो मनानिवार्णमम् अप्लवेषां षड्भर्गनग्रमसुखेन तितीर्षन्ति त्वं हरेर्भगवतो भजनीयमघ्रिं क्रत्वोडुपं व्यसनमुत्तरदुस्तरार्णम् मैत्रेयुवाच स एवं ब्रह्मपुत्रेण कुमारेणात्ममेदसा दर्शितात्मकतिसंज्ञ प्रशस्योवाच तं नृपः राजोवाच कृतो मेऽनुग्रहपूर्वं हरिणार्तानुकम्पिना तमाबयितुं ब्रह्मन् भगवन् योऽयमागताः निष्पादितश्च कार्तस्नेन भगवद्भिर्घृणालुपिः साधुच्छिष्टं सि मे सर्वमात्मना सह प्राणाधारसुता ब्रह्मन् गृहाश्च शपरिश्च दाहा राजं बलं महीकोश इति सर्वं निवेदितं सैनापत्यं च राज्यं च दण्टनेतृत्वमेव च सर्वलोकाधिपत्यं च वेतशास्त्रविदर्हति स्वमेव ब्राह्मणो भुङ्क्ते स्वं हस्ते स्वं ददाति च तस्यैवानुग्रहेणान्नम् भुञ्जते क्षत्रियादयः यैरीदृशि भगवतो गतिरात्मवादे एकान्ततो निगमभिप्रतिपादिता नः तुष्यन् वधप्रकृणा स्वकृतेन नित्यम् को नाम तत्प्रतिकरोति विनोदपात्रम् मैत्रेयवाच त आत्मयोगपतय आतिराजेन पूजिताः शीलं तदीयं संसन्तके भुवन्मिषदामृणा दुर्यो दुर्योमखतान् संस्थिद्यात्यात्मशिषय आप्तकाममिवात्मानं मेन आत्मनि अवस्थितः कर्माणि च यथा कालं यथा देशं यथा बलं यथोचितं यथा वित्तम् आत्मानं प्रकृतेः परम् गृहेषु वर्तमानोऽपि स साम्राज्यश्रियाम्बितः न सा जतेन्द्रियार्थेषु निरहम् कर्माणि अनुसमाचरन् पुत्रान् उत्पादयामास पञ्चार्चिष्यात्मसम्मतान् विजिदास्वन्दूम्रकोशं हर्यक्षं द्रविणमृकम् सर्वेषां लोकपालानान् दतारैकः पृथुर्गुणान् गोपीताय जगसृष्टे काले स्वे स्वेच्च्युदात्मकः मनोवाग्वृत्तिभिः सौम्यैर्गुणैः सोमराजयि वा परः सूर्यवत् विसृजन् गृह्णन् प्रतपञ्च भुभो वसुः दुर्दर्क्षस्तेजसेवाग्नेर्महेन्द्रयिव दुर्जयः तिदीक्षया दरिद्रीव द्यौरि वाभीष्टनो नृणा वर्षति स्मयत कामम् पर्जन्य इव तर्पयन् समुद्रयिव दुर्बोथ सत्त्वेन अचलराडिव धर्मराडिव शिक्षाया आश्चर्ये हिमवानिव कुबेर इव कोषाढ्यो गुप्तार्तो वरुणो यथा मातरिस्वेव सर्वात्मा बलेन सखसौजसा अविश्वस्क्यतया देवो भगवान् भूतराडिव कन्दर्भ इव सौन्दर्ये मनस्वी मृगराडिव वात्सल्ये मनुवन्नृणा प्रभोतिवे भगवानजः बृहस्पतिर्ब्रह्मबाधे आत्मवद्वे स्वयं हरिः भक्त्या गोगुरुवे प्रेषो विष्वक्सेनानुवर्तिषो क्रिया प्रश्रयशीलाभ्यां भक्त्या गोगुरुविप्रेषु विश्वक्षेनानुवर्तिषु प्रिया प्रश्रयशीलाभ्याम् आत्मतुल्यपरोद्यमे कीर्तयोद्वगीतया पुम्भे त्रैलोक्यतत्र तत्र प्रविष्टकर्णरन्ध्रेषु रीणां राम सतामिव इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते पृदुचरिते द्वाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द